गरुडपुराणम् आचारकाण्डम् अध्यायम् ट्वेण्टिसिक्स् सूद उवाच अनन्तरम् करन्यासः विद्याकरीशुद्धिकार्य पद्ममुद्राम् बद्ध्वा मन्त्रन्यासम् कुर्यादौ कौनिष्ठिया कनिष्ठायै नमः नौम् अनामिकायै नमः मौ मध्यमायै नमः तौ ता। तार्जन्यै नमः अम् अङ्गुष्टायै नमः लां करतलायै नमः वां करपृष्टायै नमः अथ देहन्यासः स्मं स्मं मणिबन्धाय नमः ऐं क्रीं श्रीं करास्पालाय नमः महतेजरूपं हुं हुं कारेण करास्पालनं कुर्याद ऐं ह्रीं श्रीं ह्रीं स्वें नमो भगवते स्वें कुब्जिकायै नमः ह्रं ह्रीं ह्रौं न मे अकोरामुखि ह्रां ह्रीं किलि किलि वच्चेस्तौल्यक्रोशी ह्रीं ीं श्रीं ऐं नमो भगवते ऊर्ध्ववक्त्राय नमः स्वां कुब्जिकायै पूर्ववक्त्राय नमः ह्रीं श्रीं क्रीं गणनमे दक्षिणवक्त्राय नमः ॐ ह्रीं श्रीं किलिगिरिपश्चिमवक्त्राय नमः ॐ अखोरमुखि उत्तरवक्त्राय नमः ॐ नमो भगवते हृदयाय नमः क्षौं कुब्दिकायै शिरसे स्वाहा ह्रीं क्रीं प्रीं आं नयननमेशिकायै वषड अखोरामुखि कवचायु हैं हैं ईं नेत्रयाय वौषड किलि अस्त्राय फट ऐं ह्रीं श्रीम् अखण्डमण्डलाकारमहाशूलमण्डलाय नमः ऐं ह्रीं श्रीं वायुमण्डलाय नमः ऐं ह्रीं श्रीं सोममण्डलाय नमः ऐं ह्रीं श्रीं महाकुलबोधावलिमण्डलाय नमः ऐं ह्रीं श्रीं महा कौलमण्डलाय नमः ऐं ह्रीं श्रीं गुरुमण्डलाय नमः ऐं प्रीं श्रीं साममण्डलाय नमः ऐं प्रीं श्रीं समग्रसिद्धयोगिनीपीठापीठक्षेत्रेपक्षेत्रमहासन्तानमण्डलाय नमः एवं मण्डलानां द्वादशकं क्रमेण पूज्यम् इति श्रीकारुडे महापुराणे आचारकाण्डे परन्यासादिनिरूपणम् नाम षड्विंशोऽध्यायः ओम्